श्रीमद्भागवत्महापुराणं चतुर्थे स्कन्ध चतुर्दशोऽध्यायः बालिसापति योऽयं वा धर्मे धर्ममालिनः ये वृत्तिदं पतिं हत्वा जारं पतिमुपासते औजानन्ति मे मूढानुपरूपिणमीश्वरं नानुविन्दन्ति ते भद्रम् को यज्ञपुरुषो नाम यद्रवो भक्तिरीदृशीन् भक्तिस्नेहविदूराणां यथाजारे कुयोषितां विष्णो विरुञ्चो गिरीश इन्द्रो वायुर्यमोरभिः पर्जन्यो धनदसोमचितिरग्नीरपां पतिः एते चान्ये च विविधा प्रभो वर्षापयोः देहे भवन्ति निपते सर्वदेव मयोनिपः तस्मान् मां कर्मभिर्विप्रायध्वं यद्धं बलिं च मह्यं हरत मत्तोऽन्यको गृभो पुमान् मैत्री उवाच इत्थं विपर्यय मतिपापीयानुत्पथं गतः अनुनीयमानसं तद्या न चक्रे भृष्णमङ्गलः इति ते संस्कृतास्तेन द्विजापण्डितमानिनां भग्नायां भव्यायां चायां तस्मै विदुरुचुक्रुधो हण्यतां हण्यतामेष पापप्रकृतिदारुणः जीवज्जगसावासो कुरुते भस्मसाध्रुवम् नायमर्हत्य सद्वृत्तो नारदेवपराशनम् योधियज्ञपतिं विष्णुं विनिन्दत्य न पत्रपः को वैनं परिचक्षीत वेनमेकमृते शुभं प्राप्तयिदृशमैश्वर्यं यदनुग्रहभाजिनः यथ्यं व्यवसिताहन्तु ऋषयोरूढमन्यवः निजग्नुरुहुङ्कृते वेणं हतमच्युतनिन्दयाम् ऋषभी स्वाश्रमपदं गते पुत्रकलेवरं सुनीथा पालयामास विद्यायोगेन शोचते एकदा मुनियस्ते तु सरस्वन्धलीलाप्लुता हाग्निं सद्गथा चक्रून् उपविष्टा सरित्तटे वीक्षोत्थितान् तदुत्पातान् आहुर्लोकभयङ्करान् अव्यभद्रमनाथायां दस्युभ्यो न भवेद्भुवः एवं रुषन्त ऋषयोद्धावतां सर्वदुन्तो दिशं पांशुसमुत्थितो भूरिचोराणामभिलुम्पताम् तदुपद्रवं माज्ञाय लोकस्य वसुलुम्पताम् भर्तर्योपर ते तस्मिन्नोऽन्यं च जिकांशतां चोरप्रायं जनपदं हीनसद्गमराजकं लोकान्नावार्यक्ता अपि तद्दोषदर्शिनः ब्राह्मणसमदीक्षान्तो दीनानां समुपेक्षकः श्रवते ब्रह्म तथापि भिन्नभाण्डात् पयो यथा नाङ्गस्य वंशो रादर्शे एषं संस्थातुमर्हति अमोघवीर्याहिपावंशेऽस्मिन् केशवाशयाः विनिश्चित्यैव विषयो विपन्नस्य महीपते मन्मन्थोरुं दर्शा तत्रासीद्बाहुके को नरः काककृष्णोतिर्षस्वाङ्गोर्हस अश्वपाण्डीं न नाशाग्रो रक्ताक्ष ताम्रमूर्धजः तं तु ते वतं दीनं किं करोमीति वादिनम् निषीदेत्य ब्रुमस्तात् च निषादस्ततोऽभवत् तस्य वस्यासु नैसादा गिरिकानगोचराः येनाह्रज्यामयमानो वेन कल्मष मुल्बणम् इति श्रीमद्भागुते महापुराणे परं श्यां चेतायां चतुर्संस्कन्धे प्रतिचरिते निसादोत्पत्तिर्नाम चतुर्दशोऽध्यायः